निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्तिर्भविष्यति द्रक्ष्यं चतुर्भुजं श्रुत्वा तथा च समुदाहृतं पृथिव्यां पार्थिवाः सर्वे अभ्यगच्छन्ति द्रक्षवः तान् पूजयित्वा सम्प्राप्तान् यथार्हं समहीपतिः एकैकस्य नृपस्याङ्के पुत्रमारोप यत्तदा एवं राजसहस्राणां पृथक्त्वेन यथाक्रमं शिशुरङ्कसमारूढौ न तत्प्रापनिदर्शनम् एतदेव ततश्चेदिपुरम् प्राप्तौ सङ्कर्षिण जनार्दनौ यादवौ यादवीन् द्रष्टुं स्वसारन्तौ पितुस्तदा अभिवाद्य यथा न्यायीं यथाश्रेष्ठं प्रपञ्चताम् कुशलानामयम् पृष्ट्वा निषण्णौ रामकेशवौ साभ्यर्च्यतौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः पुत्रं देवी संन्यय दधात् न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकाबुभौ पेततुस्तच्च तद्दृष्ट्वा व्यथिता त्रस्ता वरङ्कृष्णमयाचत ददस्वी वरङ्कृष्णभयार्ताया माभुज त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः एवमुक्तस्ततः कृष्णस्सोब्रवीति दुनन्दनः